श्रीहरये नमः अथ चतुर्दशोऽध्यायः सोत उवाच सम्प्रस्थिते द्वारकायां जिष्णोर्बन्धुधिश्रुक्षयां ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विशेषितं व्यतीता गतिषिन्मासास्तधा नायात्तदोऽर्जुनः ददर्शघोररूपाणि निमित्तानि कुरुद्वह कालस्य च कधिं रौद्रां विपर्यस्तर्दुधर्मिणः पापीयसेम् वार्तां ग्रोतलोपान् ऋतात्मनां जिह्मप्रायं व्यवहृतं चाड्यमिश्रं च सौहृदम् पितृमातृसुहृद्भातृ दम्पतीनां सकल्कनं निमित्तानि यत्यरिष्ठानि काले त्वनुगते नृणां लोभाद्यधर्मप्रकृतिं दृष्ट्वा उवाचानुजं नृपहा संप्रेक्षितो द्वारकायां जिष्णोर्बन्धुधितृक्षया ज्ञातृं च पुण्यश्लोकस्य कृष्णस्य च विशेषितं गता सप्तानुनामासो भीमसेनत्तवानुजः नायाति कस्य वाहतोर्नाहं वेदेधं मज्ञसा अभिदेवर्षिणादिष्ट सकालोऽयमुपस्थितः यदात्मनो गमाक्रीटं भगवान् उत्सिश्रुषति यस्मान्न राज्यं धाराः प्राणाकुलं प्रजा आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् पश्योत्पातान्नरव्याघ्रदिव्यान् भौमान् सतैः दारुणान् संसधूराद्भयं नो बुद्धिमोहनम् ऊर्वक्षि मह्यं स्फुरन्ध्यङ्ग पुनः पुनः वेपतुश्चाभिहृदये आरा विप्रियं वे शिवैक्षोद्यन्तमादित्यम् अभिरौद्यनला न मामङ्गसारमेयोमभिरेभद्य अभिरुभस्था कुर्वन्ति मां स्वयं दक्षि ं भसवो परे वाहांश्च पुरुषव्याघ्रलक्षयेरुदतो मम मृत्युधूतगबोधोऽयमुलूकम्पयन्मनः प्रत्युलूकश्च गोक्वानै अनिद्रौ शून्यनिश्चतः धूम्रादिशः परिधयः कम्पते भूसहाद्रिभिः निर्गातश्च मखांस्तादसाकं च स्तनयित्नुभिः वायुर्वाधिकरस्पर्शो रजसा विसृजंस्तमः अश्रु वर्षन्ते जलता दीपस्समिव सर्वतः सूर्यं हतप्रभं पश्य ग्रहमर्धं मिधो दिवि ससङ्कुलैर्भूतगणैर्ज्वलिते इवरोधसे। रोदसे नद्योन्नताश्च क्षुपिताः न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यधी न बिबन्ति स्तनं वत्स न दुह्यन्ति च मातरः रुदन्त्यश्रुमुखो गावो न हृष्यन्ति ऋषभाव्रजे दैवतानि रुधन्तीव स्वीद्यन्ति ह्युच्चलन्ति च इमे जनभता घ्रामा पृष्ठश्रियो निरानं तक् किमघं दर्शयन्ति न मन्ययेतैर्मकोद्भातैर्नूनं भगवत्पधैः अनन्यपुरुषश्रीपीर्हीनाभूर्हतसौभग इति चिन्तयस्तस्य धृष्टोरिष्ठेन चेतसा राज्ञप्रत्यागमद्ब्रह्मन् यदुपुर्याकभिध्वजः तं अयथापूर्व मातुरम् अधो वद नाम बिन्दून् सृजन्तं नयनाजयोपृच्छन्ति स्म सुहृन्मध्ये संस्मरन् आनर्तया स्वजनाः सुखमासते मधु भोज दशार्हार्हश्वत अन्धकवृष्णयः सुरोमादमः मातुलः सानुजः कश्चित् कुशली आनगदुन्दुभिः सप्त स्वरसारस्त तद्भन्त्यो मातुलान्यक् सखात्मज कृधीकः ससुधो क्रूरो जयन्तगतशारणाः आसते कुशलं कच्चित्ये च शत्रुजिदादयः कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः हृद्युं न सुखमास्ते मकारतः गम्भीररयो निरुद्धो वर्धते भगवानुत सुषेणश्चारुदेष्णश्च शाम्भो जाम्बवती सुतः अन्ये च काशीप्रवरा स पुत्रा श्रुतदेवबुद्धवातयः सुनन्दनन्दशीर्षण्याये चान्ये सात्वदर्षभाः अभि स्वस्त्या स सर्वे रामकृष्णभुजाश्रयाः अपि स्मरन्ति कुशलमस्माकं भद्रसौहृदाः भगवान वि गोविन्दो भक्तवत्सलः कच्चित् पुरेषु सुखमास्ते सुहृत् ्रतः मङ्गलाय च लोकानां क्षेमाय च भवाय च आस्तेय दुकुलां भोतौ आद्यो नन्दसखुमान् यद्भागुदण्डगुप्त स्वपुर्यां यथवोर्छिताः क्रीडन्ति परमानन्दं महापौरुषिका इव यद्भात शुश्रूषणमुख्यकर्मणा स्यातयो द्वयष्टसक्रयोषितः निर्युष्टसङ्ख्ये धृतसांस्तसिषो हरन्ति वज्रायुतवल्लभोषिताः यद्बाहुदण्डाभ्युदया नो जीविनो यदुप्रवीराह्यगुप्तो भयामुहुः अतिग्रमन्तयं गृभिक् आकृतां बलात् सभां सुधर्मां सुरशुद्धमोषितां कच्चित्ते नामयं ताद भ्रष्टते अलब्धमानो वज्ञात वा तथा शिरोषितः कच्चिन्ना विहतो भावैर्सब्धादिभिः अमङ्गलैः न दत्तमोक्तमर्तिभ्य आशया ब्राह्म श्रुतं नाध्याशि शरणप्रतः कच्चित् वासत्कृतां स्त्रियं पराजितो वा त भवानोत्तमेर्ना समीपते अपि स्वित्पर्यं सम्भोज्यान् वृद्ध बालकान् जुगुप्सितं कर्म किञ्चित् कृतवान् न यथक्षमं कच्चित् प्रेष्ठतमेनातहृदयेन आत्मबन्धुना शून्योऽस्मिरहितो नित् इति श्री भागवते महापुराणे प्रथमस्कंते युधिष्ठि विदर्को नाम चतुर्दशोध्याोपिका जीवनस्मण गोविन्दा गोविंद सद्गुमहराज के जय